हरिओं श्री सीतामचंद्रम नम अथ श्रीमद वाल्मीकिरामणे अयोध्या ऋषीण भरत प्रति श्रीराम संति भर से श्रीराम चरण प्रणत फुरी प्रति चलता तत्पी प्राथना श्रीराण तम प्रबोध्य स्वीया चरण पादुका दत्वा तेषां सर्वेषां ततः प्रस्थानम् तमप्रतिमतेजोभ्याम् भ्रातृभ्यां रो महर्षणम् विस्मिताय सङ्गमम् प्रेक्ष्य समुपेता महर्षयः अन्तर्हिताय मुनिगणा स्थिताश्च परमर्षयः तो महाभागो काकुत्स्थो पशं सदार्यौ राजपुत्रो द्वौ धर्मज्ञो धर्मविक्रमौ श्रुत्वा वयम् हि सम्भाषाम् उभयो स्पृहयामहे तत तु शिगणाक्षिप्रम् दशग्रीवधैर्षिणः भरतम् राजशार्दूलम् इत्युचु सङ्गतावचः कुले दात महाव्राज्ञ महावृत्त महायशः ग्राह्यम् रामस्य वाक्यम् पितरं यदवेक्षसि तदा नृणमिमं रामम् वयम् इच्छा मये पितुः अनृणत्वाश्च कैकेयी स्वर्गं दश रथोगत एतावदुक्त्वा वचनम् गन्धर्वास महर्षय राजषेश्चैव तथा सर्वे स्वां सां गतिं गताः शुभे शुभदर्शनः राम संरुश्चभ्यपूजयत् तस्य गात्रस्तु भरते स वाच्या सज्ज मानय कृताञ्जलिरम् वाक्यम् राघवम् पुनरब्रवीत् राम धर्ममिमम् प्रेक्ष्य कुलधर्मानुसन्तर्हसि मम मातुषयाचनां रक्षितुं सोमहद्राजम् अहम् एकस्तु लोत्सहे पौरजानपदापि रक्तां रञ्जयितुं तदा ज्ञापयश्चापि योधा च मित्राणि सुरदर्शनः ताम्येव हि प्रतीक्षन्ते पर्जन्यमिव कर्षकः इदं राजम् हाप्राज्ञा स्थापय प्रतिपद्य हि शक्तिमान् सहिताकुत्स लोकस्य परिपालने एवम् उक्त्वातुः पादयोर्भरत सदा भृशम् सम्प्रार्थयामास राघवेति प्रियं वदन् सम्बङ्के भ्रातरम् कृत्वा रामो वचनम् अब्रवीत् श्यामं नलिनपत्राक्षम् मत्तांसः सरस्वयम् आगता साम्यं बुद्धिः स्वया वै नैके च भृशम् उत्सहसेतात् रक्षितुम् पृथिवीम् अपि अमात्यै च श्रुद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः सर्वकार्याणि सम्मन्त्र्य महान् पी हिकारय लक्ष्मीचन्द्रादपि अधिवा हिमवान् वा हिमं त्यजेत् अतीया सागरो वेलाम् न प्रतिज्ञाम् अहम् पितुः कामाद्वा तात लोभाद्वा मात्रा दुभ्यम् इदम् कृतम् न तन्मनसि कर्तव्यम् वर्तितव्यम् च मातृवेत् एवम् ब्रुवाणम् भरतः कौसल्याश्रतमब्रवीत् तेजसाय नित्यसङ्काशम् प्रतिपश्चन्द्रदर्शनम् अधिरोहार्यपादाभ्याम् पादुके हेमभूषिते एते सर्वलोकस्य योगक्षेमम् विधास्यतः सो हिरुह्य नरव्याघ्र पादुके व्यवमुच्य च भरताय महात्मने सपादुके सम्प्रणम्य रामम् वचनमब्रवी चतुर्दश हि वर्षाणि जटाचीर धरो ह्यम् पलम्भूल शनो वीर भवेयम् रघुनन्दन तवागमन कमाकाङ्क्षन् वसन् वै नगराद्बहि तव पादुकयोर्न्यस्य राजतन्त्रं परन्तप चतुर्दशे सम्पूर्णे वर्षेहनि रघुत्तम न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् तथेति च प्रतिज्ञाय तं परिष्वज्य सादम् शत्रुघ्नं च परिष्वज्य वचनं चेदम्ब्रवीत् मातरम् रक्षकैके मां रोषं कुरुताम् प्रति मया च प्रीतया चैव शक्तोषि रघुनन्दन इत्युक्ताश्रु परीक्षा परीताक्षु भ्रातरम् विश्वदर्ज हे स्वपादुके ते भर्ते स्वलङ्कृते महोज्वले सम्परिगृह्य धर्मवीत् प्रदक्षिणं चैव चकार राघवम् चकार चैवोत्तम नागमुदी अथानु कुर्व्या प्रतिपूज्य गुरुश्च मन्त्रीन् प्रपुतिश्च सानुजो व्यसयत्राघववंश वर्धन स्थित स्वधर्मे हिमवानि वासल तन् मातरो बाष्पगृही च कण्ठो दुःखेन नामन्त्रयितुं हि लोशे कु स इत्याश्री श्रीमद् रामायणे वाल्मकी यादिकाव्ययोज्याकाण्डे द्वादशाधिकशतसमसर्गे श्रीसीतारामचन्द्रारणमस्तु